नारदपुराणं पूर्वार्थम् अध्यायम् हण्ड्रेड् अण्ड् सनातन उवाच एकादश्यान्तु दलयोर्निराकारः समाहिधः नाना पुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभं श्रत्वा सम्यग्विधानेन सोपवासो जितेन्द्रियः सम्पूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः उपचारैर्बहुविधैर्जपैर्होमैः प्रदक्षिणैः स्तोत्रपाठैर्बहुविधैर्गीतवाद्याैर्मनोहरैः दण्डवत्प्रणिपातैश्च जयशब्दैर्मनोहरैः रात्रौ जागरणं कृत्वा यादिविष्णोः परम् पदम् चैत्रस्य शुक्लैकादश्याम् सोपवासो नरोत्तमः कृत्वा जनियमान् सर्वान्वक्ष्यमाणान् दिनत्रये द्वादश्यामर्चयेद्भक्त्या वासुदेवम् सनातनम् उपचारैषोडशभिस्तदसंभोज्य बान्धवान् दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत च स्वयम् इयं तु कामदा नाम सर्वपादकनाशिनी मुक्तिमुक्तिप्रदाविप्रभक्त्या सम्यगुपोषिता वैशाख कृष्णैकादश्याम् समुपोष्य विधानतः वरुधिनी परदिने पूजयेन्मृदुसूदनम् स्वर्णान्नकन्या धेनूनां दानमत्र प्रशस्य दे वरूधिनि व्रतं कृत्वा नरो नियमतत्परः सर्वपापविनिर्मुक्तो वैष्णवं लभदे पदम् वैशाखशुक्लैकादश्यां समुपोष्य च मोहिनीं ज्ञात्वा परेहिनि सम्पूज्य गन्धाध्यैपुरुषोत्तमं सम्भोज्य विप्रान्मुच्येदपादकेभ्यो न ज्येष्ठस्य कृष्णकादश्यां समुपोष्य परां नृप द्वादश्यां नैतिकम् कृत्वा समभ्यर्च्य त्रिविक्रमं तदो द्विजाग्र्यान् सम्भोज्य दत्त्वा तेभ्यश्च दक्षिणां सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ज्येष्ठस्य शुक्लैकादश्यां निर्जलाम् समुपोक्ष्यतु उदयादुदयं यावद्भास्करस्य द्विजोत्तमप्रभादे कृतनित्यस्तु द्वादश्यामुपचारकैः कृषिकेशं समभ्यर्च्य विप्रान् सम्भोज्य भक्तिदः चतुर्विंशैकादशीनां फलं यत्तत् समाप्नुयाद आषाढकृष्णैकादश्यां योगिनीं समुपोष्य वै नारायणं समभ्यर्च्य द्वादश्यां कृतनित्यकः तदसम्भोज्य विप्राग्र्यान् दत्त्वा तेभ्यश्च दक्षिणां सर्वदा प्राप्य मोददे विष्णुमन्दिरे आषाढशुक्लैकादिश्यां यद्विधानं शृणुष्व तद उपोष्य तस्मिन् दिवसे विधिवन्मण्डपे शुभे स्थापयत् प्रतिमां विष्णोः शङ्खचक्रगदाम्भुजैः लसचतुर्भुजामग्र्यां काञ्चनीं वाधराचरीं पीदाम्बरधरां शुभ्रे पर्यङ्गेष्वास्तृते द्विजा तद पञ्चामृदैः स्नाप्य मन्त्रैः शुद्धजलेन च पौरुषेणैव सूक्तेन ह्युपचारान् प्रकल्पयेद नीराजनान्तान् पाद्यादींस्तदः सम्प्राप्तयेद् हरिम् सुप्ते त्वयि जगन्नाद जगत् सुप्तम् भवेदिदम् विबुधे त्वयि बुद्धम् जगत् सर्वम् चराचरम् इति सम्प्रार्थ्य देवाग्रे चादुर्मास्य प्रचोदितान् नियमांस्तु यदा शक्ति गृह्णीयाद्भक्तिमान् नरः तदप्रभादे द्वादश्यां समर्चे चे शशायिनम् उपचारैषोडशभिस्तदा संभोज्य वाडवन् प्रतोष्य दक्षिणाभिश्च स्वयं भुञ्जितव तद प्रभृति विप्रेन्द्र गन्धाध्यायि प्रत्यपं व्यजेत कृत्वैवं विधिना विप्रदेवस्य शयिनी व्रतम् भुक्तिमुक्ति युधो मध्यो भवेद्विष्णो प्रसादतः श्रावणे कृष्णपक्षे दूयकादश्यां द्विजोत्तम काम्यकां समुपोष्यैव नियमेन नरोत्तम द्वादश्याम् कृतनित्यस्तु श्रीधरं पूजयेद्धरिम् उपचारैषोडशभिस्तदसंभोज्य वै द्विजान् दत्वा च दक्षिणं तेभ्यो विसृज्यास्नीदबान्धवैः एवं ह्य कुरुदे विप्रकामिका व्रतमुत्तमं स यादि परं पदम् एकादश्यां नखशुक्ले पवित्रा समुपोष्य वै द्वादश्यां नियतो भूत्वा पूजयेच्छ जनार्दनम् उपचार्यैषोडशभिस्तद सम्भोज्य वा ढवान् दत्वा पुत्रं प्राप्ये सद्गुणं या दिविष्णोः पदं साक्षात् सर्वदेव नमस्कृतः नभस्य कृष्णैकादश्यामजाख्यां समुपोष्य वै अर्चे दुर्पेन्द्रम् द्वादश्यामुपचारै पृथग्विधैः विप्रान् सम्भोज्यमिष्टान्नैर्विसृजेत् प्राप्तदक्षिणान् एवं प्रदव्रदो विप्रभक्त्या जाया समाहितः भुक्त्वेह भोगान् अखिलान्यात्यन्दे वैष्णवं क्षयं नभस्य शुक्लैकादश्याम् पद्माख्यां समुपोष्य कृत्वा नित्यार्चनं तत्र कडिदानमथाचरेद पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तमसमो सवविधानेन नीत्वा तां सलिलाशये कृताम्बुस्पर्शनं तत्र सम्प्रभूज्य विधानतः आनीय मण्डपे तस्मिन् वामपार्श्वे द्वादश्यां गन्धाद्यैरार्च्य वामनम् भुक्तिम् प्राप्यहमुक्तिम् तु लभतेन्दे प्रपञ्चतः इषस्य कृष्णैकादश्यामिन्दिराम् समुपोष्य वै शालग्रामशिलाग्रेदुमध्याह्ने श्राद्धमाचरेद विष्णोः प्रीतिकरम् विप्रतदप्रादर्हरेर्दिने पत्मनाभं समभ्यर्च्य भूदेवन् भो जयेत्सुधि विसृज्य दक्षिणां दत्त्वास्ततो स्नीत च स्वयम् एवं कृतव्रतो मर्त्यो भुक्त्वा भोगा निकेप्सितान् पितॄणां कोटिमुद्धृत्य यात्यन्दे वैष्णवं गृहम् एकादश्यामिषे शुक्ले विप्रपाशाङ्कुशाह्वयम् उपेष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत् तत् सम्भोज्य विप्राग्र्यान् दत्त्वा तेभ्यश्च दक्षिणां भक्त्या प्रणम्य विसृजे दक्षिणीयाश्च स्वयं ततः एवं यः कुरुते भक्त्या स भुक्त्वे कवरान् भोगान्यादिविष्णोः सलोकतां कार्तिके कृष्णपक्षे तु एकादश्यां द्विजोत्तम रमामुपोष्य विधिवद्वादश्यां प्रादरर्चयेद केशवं केशी कन्धारं देवदेवं सनातनं भोजये च ततो विप्रान् विसृजेल्लब्ध दक्षिणान् एवं कृतव्रतो विप्रभोगान् भुक्त्वेक वाञ्छितान् व्योम यानेन सान्निध्यं लभते जरमापदेः ऊर्जस्य चुक्लैकादश्यां समुपोष्य प्रबोधिनीं केशवं बोधये द्रात्रौ सुप्तं गीतादिमङ्गलैः ऋग्यजुसममन्त्रैश्च वाद्यैर्नानाविधैरभिद्राक्षेषु दाढिमैश्चान्यै रम्भा शृङ्गाडपादिभिः समर्पणैस्तदो रात्र्यां व्यधितायां परेऽधनि स्नात्वा नित्यक्रियां कृत्वा गदा दामोदरं यजेद उपचारैषोडशभिपौरुषेणाभि सूक्ततः सम्भोज्य विप्रान् विसृज दक्षिणाभिप्रदोषितान् तदस्ताम् प्रतिमां हैमीं सधेनु गुरवेर्पयेद एवं व्य कुरुते भक्त्या भोगिनी व्रतमादृदः स भुक्त्वेहवरान् भोगान् वैष्णवम् लभते पदम् मार्गस्य कृष्णैकादश्यामुत्पन्नाम् समुपोष्य वै त्वा दश्याम् कृष्णम् अभ्यर्थे गन्थाद्यैरुपचारकैः ततः सम्भोज्य विप्राग्रियान् दत्त्वा तेभ्यश्च दक्षिणां विसृज्य पश्चाद्भुञ्जीदस्वयमिष्ठैः समाहितः एवं यो भक्तिभावेन उत्पन्ना व्रतमाचरेद सभिमानम् समारुह्य यात्यन्दे वैष्णवं पदं मार्गस्य चुक्लैकादश्यां मोक्षाख्याम् समुपोष्य वै द्वादश्यां प्रादरभ्यर्च्यह्यनन्दं विश्वरूपकम् सर्वैरेवोपचारैस्तु विप्रान् सम्भोजयेद्विजः विसृज्य दक्षिणां दत्त्वा स्वयं भुञ्जितबान्धवैः एवं कृत्वा व्रतं विप्रभुक्त्वा भोगानि हेप्सितान् दश पूर्वान् दश परान् पौपस्य कृष्णैकादश्यां सफलां समुपोष्य द्वादश्यामच्युतं प्राच्य सर्वैरेवोपचारकैः सम्भोज्य विप्रान् मधुरैर्विसृज्ये लब्धदक्षिणान् एवं कृत्वा व्रतं विप्र सफलाय विधानद भुक्त्वेह भोगानखिलान्यात्यं ते वैष्णवं पदं पौषस्य शुक्लैकादश्यां पुत्रदां समुपोष्य वै र्ये दर्काग्यैरुपचारकैः तद सम्भोज्य विप्राग्र्यान् दत्वा तेभ्यः सुदक्षिणान् विसृज्य स्वेष्ट स्वेष्टबान्धवैः एवं कृतव्रतो भोक्त्वा भोगानि हेप्सितान् विमानवरमारुह्य यात्यन्दे हरिमन्दिरमागम्य कृष्णैकादश्यां शक्थिलाम् समुपोष्य वै स्त्वा दत्वा तर्पयित्वा हुत्वा भूत्वा समर्च्यज त्रिलैरेव द्विजश्रेष्ठद्वादश्यां प्रादेव एवम् कृत्वा व्रतं विप्रविधिना सुसमाहितः भुक्त्वे भगवाञ्जिदान् भोगानन्दे विष्णुपदम् लभेद माघस्य शुक्लैकादश्याम् समुपोष्य जया प्रादर्हरिदिनेभ्यर्चे श्रीपदिं पुरुषम् द्विजयित्वा दक्षिणाञ्च दत्त्वा विप्रान् विसृज्य च स्वयम् भुञ्जित तच्छेषम् प्रयदो निजबान्धवैः ये य एवं गुरुदेवी प्रव्रदं केशवतोषणं स भुक्त्वे कवरन् भोगानन्दे विष्णोः पदं व्रजेत तपस्य कृष्णैकादश्यां विजयां समुपोष्य वै द्वादश्यां प्रादरभ्यर्त्ययोगीशं गन्धपूर्वकैः तदसम्भोज्य भूदेवान् दक्षिणाभिप्रदोष्यतान् विसृज्य बान्धवै स्वयमस्नीतवाग्यदः एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानि हेप्सिधन् देहान् देवैष्णवं लोकं यादि देवैः सुसत्कृदः फाल्गुनस्य सुधे पक्षे एकादश्यां द्विजोत्तम उपोष्यामलघिं भक्त्या द्वादश्यां प्रादरर्चयेद पुण्डरीकाक्षमखिलैरुपचारैस्तदो द्विजन् भोजयित्वा वरनेन दद्या तेभ्यस्तु दक्षिणां जपं कृत्वा विधानेनामलक्यां पूजनादिकं सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदं चैत्रस्य कृष्णैकादशीं पापमोचनिकाम् द्विजा उपोष्यत्वा तस्यां प्रातर्गोविन्दम् पूजयेस्तथा उपचारैषो दशभ्यर्द्विजान् सम्भोज्य दक्षिणा दत्वा तेभ्यो विसृज्यादस्वयं भुञ्जीत बान्धवैः येव यक्कुरुदेवी प्रभावमोचनिकां व्रतां सा यादि वैष्णवं लोकं विमानेन दुभास्वद इदं कृष्णो तथा शुक्ले व्रतं चैकादशी भवं मोक्षदं कीर्तितं विप्र नास्त्यस्मिन् यतस्त्रिदिनसंसाध्यं कीर्तिनम् पावनाशनं सर्वव्रतमं विप्रदतो ज्ञेयम् महाफलम् त्यजे चत्वारि भुक्तानि नारदै तद्दिनत्रये आद्यं तयोरे गमे ग मध्यमे द्वयमेवहि अददे नियमान्वस्मि व्रते ह्यस्मिन् दिनत्रये कांस्यमांसं मसूदान्नं चणकान् कोद्रवांस्तथा साकं मधुपरान्नं च पुनर्भोजन मैथुने दशम्यां दशवस्तु निवर्धयेद्वैष्णव सदा द्यूतक्रीडां च निद्रां च ताम्बूलं दन्तधावनं परापवादं वैशून्यं स्थेयं हिंसां तथा रथिम् कोपं ह्यानृतवाक्यं च एकादश्यां विभर्जयेत् कांस्यं मां संसुरा क्षौद्रं तैलं विण् म्लेच्छ भाषणं व्यायामं च प्रभासं च पुनर्भोजनमैधुने अस्पृश्य स्पर्शमासूर्य द्वादश्यां द्वादश त्यजेद् एवं नियमकृद्विप्र शक्तो शक्तुस्तु मदीमानेकभुक्तं न न क्लकम् अयाचितम् वापि तरेन्न त्यजेद्व्रतमीदृश्यम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्थितैकादशीव्रतकथनं नाम विंशत्यधिकशततमोऽध्यायः ओम्